अङ्गारकाय विद्महे भूमिपालाय धीमहि तन्नः कुजप्रचोदयात् अस्य श्री अङ्गारककवचमहामन्त्रस्य विरूपाक्षर्षिः अनुष्णच्छन्द्रः अङ्गारको देवता अम्बीजम् शंशक्तिः रं कीलकम् मम अङ्गारकप्रसादसिद्ध्यर्थे जपे विनियोगः न माम्यङ्गारकम् देवम् रक्ताङ्गम् वरभूषणम् चतुर्भुजम् वेषभागम् वरदम् च वराकृतिम् शक्तिषूलगता हस्ताम् ज्वालाम् मूलोऽर्ध्वकेशकम् मेरुम् प्रदक्षिणम् जान्तम् सर्वदैवेष्टसिद्धिदम् अङ्गारकशिरो रक्षेत् मुखम् वै धीसुतः क्ताम्बरः पादो नेत्रे मे रक्तलोचनः नासिकां मे शक्तिधरः कण्ठं मे पादु भौमकः रक्तमालीभुजौ पादौ हस्तम् शूलधरस्तथा चतुर्भुजो मे हृदयम् क्षिरोगापहारकः गणिं मे भूसुतः पादौ पादो भौमः सदा मम सर्वाणि यानि चाङ्गानि रक्षेन्मे ्यजितम् कवचम् नित्यम् सर्वशत्रुविनाशनम् भूतप्रेतपिशाचानाम् नाशनम् सर्वसिद्धिदम् सर्वरोगहरम् चैव सर्वसम्पत्प्रदम् शुभम् भुक्तिमुक्तिप्रदम् नृणाम् सर्वसौभाग्यवर्धनम् ऋणबन्धहरम् नित्यम् वटे श्रद्धा समन्वितः गङ्गारकप्रसादेन सकामाल्लभते ध्रुवम् स्तोत्रपाठम् तु सम्कुर्याद्देवस्याग्रे समाहितः रक्तगन्धाक्षतेः पुष्पैर्वोपदीपगुडोदनैः मङ्गलम् भोजयित्वा तु मङ्गलानि भक्तितः ब्राह्मणान् भोजयेत् पश्चाच्चतुरा द्वादशाथवा अनेन विधिना यस्तु व्रतम् तदेतत् कुर्वीत सप्तवारेष्वतन्त्रितः तस्य शस्त्राण्युत्पलानि वह्निः स्यार्चन्द्रशीतलः न चैव व्यथयन्त्येनम् मृगपक्षि गजाधयः महान्धतमसे प्राप्ते मार्तान्तस्योदयादिव विलयम् यान्ति पापानी शतजन्मार्जितानि वै